जरितारौकुलं ह्येतज्ज्येष्ठत्वेन प्रतिष्ठितम् सारिसृक्कः प्रजायेत पितॄणां कुलवर्धनः स्तम्भमित्रस्तपः कुर्या द्रोणो ब्रह्मविदम्बरः इत्येवमुक्त्वा प्रययौ पितावो निर्घृणः कमुपादाय शक्येयम् कष्टापदुत्तमा किं नु कृत्वा कृतं भवेदिति च विह्वला नापश्यत् स्वधिया मोक्षम् स्वसुतानां तदानलात् वैशम्पायनुवाचा एवम् ब्रुवाणां शार्ङ्गास्ते प्रत्युचुरथमातरम् स्नेहमुत्सृज्य मातस्त्वं पतयत्र न हव्यवात् अस्मास्विह विनष्टेषो भवितारः सुतास्तव त्वयि मातर्विनष्टायां नः स्यात्कुलसन्ततिः अन्ववेक्षैतदुभयं क्षेमं स्याद्यत्कुलस्य तद्वै परह कालो तवई कर्त परोंतरेश भवत्वाशायानेह का सुु नीद कर्म मोघं सैलोकम से जरितो वाचा इदमाखोर्बिलम् भूमौ वृक्षस्यास्य समीपतः तदा विशद्धं त्वरिता वह्नेरत्र नवो भयम् ततोऽहं पां सुनाच्छिद्रमपि धास्यामि पुत्रकाः एवं प्रतिकृतम् मन्ये ज्वलतः कृष्णवर्त्मनः तत एष्याम्यतीतेऽग्नौ विहन्तुं पांसु सञ्चयं रोचता मेशवो वादो मोक्षार्थं च हुताशनात् शार्ङ्गकाऊचुः अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् पश्यमानाभयमिदं प्रवेष्टुं नत्र शक्नुमः कथमग्निर्न नो धक्ष्येत् कथमाखुर्न नाशयेत् कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् अन्ववेक्षैतदुभयं गर्हितं मरणं नस्यादाखुना स्यादाखुना भक्षिते बिले शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् इति श्रीमहाभारते आदिपर्वणि मयदर्शनपर्वणि जरिताविलापे एकोनत्रिंशदधिकद्विशततमोऽध्यायः